लक्ष्मी मन्नदायिनी प्रार्थये धान्यलक्ष्मी मन्नदायिनी प्रार्थये पुण्यसम्पादिनी पूना प्रसन्नां धान्यलक्ष्मी मन्नदायिनी प्रार्थ श्रीकर सुदीर्घायुदय स्वयकारिणी प्राकटबलप्रदाम रक्षित जगत्रयि श्रीकर सुदीर्घायुदय स्वयकारिणी प्राकल प्रदाम रक्षित जगत्रयि धान्यलक्ष्मी मन्नदायिनी प्रार्थये पुण्यसम्पादिनि पूर्णां प्रसन्नां धान्यलक्ष्मि अन्नदायिनि प्रार्थये पुष्टिप्रदा ोषिणि चित्कलं इष्टफलसिद्धिरामिन्द्रियाधीश्वरी तुष्टिदा स्वाहा स्वधानिं तुष्टिकर्त्रीं सददृष्टसंवर्धिनि लक्ष्मी मन्नदायिनि प्रार्थये पुण्यसम्पादिनि पूर्णां प्रसन्नां धान्यलक्ष्मी मन्नदायिनी प्रार्थये पुण्यसम्पादिने